ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 33 त्रि भार्गवचरितं सगर उवाच श्रुतं सर्वं मुनिश्रेष्ठ कीर्त्यमानं त्वया विभो कवचं वद सर्वत्र त्रैलोक्यविजयप्रदं वसिष्ठ उवाच शृणु वत्सप्रवक्ष्यामि कवचं परमाद्भुतं मन्द्र च सिद्धिदशश्वत्साधकानां सुखावहं गोपीजनपदस्यादवल्लभाय समुच्चरेद स्वाहान्तोऽयं महामन्द्रो दशार्णो भुक्तिमुक््रितः सदाशिवस्त्वस्य ऋषिः पङ्घ्रिश्चन्द उदाहृदं देवता कृष्ण उदितो विनियोगोऽखिलाप्तये त्रैलोक्यविजयस्याध कवचस्य प्रजापतिः ऋषिश्चन्दश्च जगदी देवो राजेश्वरस्वयं त्रैलोक्यविजयप्राप्तौ विनियोग प्रकीर्तितः प्रणवो मे शिरःपादु श्रीकृष्णाय नमः सदा पायात्कपालं कृष्णाय स्वाहेदि सततं मम कृष्णेधि पादुनेत्रे कृष्णस्वाहेदि तारकान् हरये नम इत्येष भ्रूलतां पादुमे सदा ओम गोविन्दाय स्वाहेदि नासिकां पादुसन्ततं गोपालाय नमो गण्डं पादुमे सततं मनुः क्लीं कृष्णाय नमः कर्णौ पादुकल्पतरुर्मम श्रीं कृष्णाय नमःपादुनित्यं मेधरयुक्मकं। ॐ गोपीशाय स्वाहेति दन्तपङ्क्तिं ममावतु श्रीकृष्णेधिरदच्छिद्रं पादुमे त्र्यक्षरो मनुः ॐ श्रीकृष्णाय स्वाहेदि जिह्विकां पादुमे सदा रामेश्वराय स्वाहेदि तालुकं पादुमे सदा राधिकेशाय स्वाहेदि कण्ठं मे पादु सर्वदा नमो गोपीगणेशाय ग्रीवां मे पादु सर्वदा ॐ गोपेशाय स्वाहेधिस्कन्धौ पादु सदा मम नम किशोरवेशाय स्वाहा पृष्ठं ममा वधू उदरं पाद मे नित्यं मुकुन्दाय नमो मनुः ह्रीं ीं श्रीं कृष्णाय स्वाहा करौ पादु सदा मम ॐ विष्णवे नमः स्वाहा बाहुयुक्मं ममा वद ॐ ह्रीं भगवते स्वाहा नखपङ्क्तिं ममा वधू नमो नारायणा येदि नखरन्ध्रं ममावधू ॐ ह्रीं श्रीं पद्मनाभाय नाभिं पादु सदा मम ॐ सर्वेशाय स्वाहेदि केशान्मम सदा वदतु नमः कृष्णाय स्वाहेदिब्रह्मरन्ध्रं सदा ॐ माधवाय स्वाहेदि बालं मे सर्वदा वदतु ॐ ह्रीं श्रीं रसिकेशाय कडिं मम सदा वद नमो गोपीजनेशाय ऊरूपादु सदा मम ॐ नमो दैत्यनाशाय स्वाहेत्यवदु जानुनी यशोदानन्दनायेदि नमो दो जङ्खकेवदु रासारम्भप्रिया येदि स्वाहान्दो हि स्वाहेदि सकलाङ्गनिमेवदु परिपूर्णमनः कृष्णप्राच्या मां सर्वदा वद स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदा वद नैरृत्यां पादु मां कृष्णाः पश्चिमे पादु मां हरिः गोविन्दः पादौ वायव्यामुत्तरे ऋसिकेश्वरः ऐशान्यां मे सदा पादौ वृन्दावनविहारकृत वृंदर शो मूर्धदेश सद सदैव पाद बलिध्वंसी महाबल जल स्थले चांदरीक्षे नृसींह पादा स्वने जागरणे च पादो मां माधवस्वयं सर्वान्तरात्मा निर्लिप्तः पादुमां सर्वतो विभुः यदि ते कथितम्भूप त्रैलोक्य विजयं नाम कवचं परमेशिदुः मया श्रुतं शिवमुखात् प्रवक्तव्यं न कस्यचिद् गुरुमभ्यर्च्यविधिवत्कवचं धारयेत्तु यः कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः स साधगो वसद्यत्र तत्र वाणीरमे स्थिते यदि स्यात्सिद्धकवचो जीवन्मुक्तो न संशयः निश्चितं कोटिवर्षाणां पूजाया फलमाप्नुयाद राजसूर्यसहस्राणि वाचपेयशतानि च महदानानि यान्येव भुवश्चापि प्रदक्षिणा त्रैलोक्य विजयस्यास्य कलां नार्हन्ति षोडशीं व्रतोपवासनियमास्वाध्यायाध्ययने तथा स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि सिद्धत्वमरत्वं च दासत्वं श्रीहरेरपि यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितं स दशलक्षं जपेत्तु यः यो भवेत् सिद्धकवचो विजयी स भवेत् ध्रुवम् राज्यं देयं शिरो देयं भूपते ये दत्तु कवचं वत्स न देयं सङ्कटेऽपि च मया प्रकाशितं यत् ते चैदेशां त्राणकारणाद् ममाज्ञाकरणाच्चैव तद्विद्धि कुभास्करुवा दुकवचं चक्रवर्ती भवान्फ्रह्माडे महापुराणे वायु प्रोक् मध्यम भागे तृतीय उपोदचरिस्तम Om um...